शमकखनम् अनुवागम् सिक्स् अग्निश्च चाग्निरग्निश्च मे मे चमे च च मे सोम सोमो मे च च मे सोमः मे सोम सोमो मे मयिन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे च च मे सविदासविदा मे च च मे सविता च च सविदासविता च मे च सविदासविदा च च मे मे च च मे च च मे मयिन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च इन्द्रश्च मे मे इन्द्रश्च मे च मे सरस्वती सरस्वती मे च सरस्वती मे सरस्वती सरस्वती मे मे सरस्वती सरस्वती मे मे सरस्वती च सरस्वती च सरस्वती सरस्वती च मे मे च सरस्वती सरस्वती च मे च मे मे च च म इन्द्र इन्द्रो मे च च मे म इन्द्रश्च चेन्द्रो इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र मे च पूषा पूषा मे च पूषा मे पूषा पूषा मे पूषा च पूषा मे पूषा च पूषा च पूषा पूषा च मे मे च पूषा पूषा च मे च मे मे च च इन्द्रो मे च च मयिन्द्रः मयिन्द्र इन्द्रो मे मयिन्द्रश्च चेन्द्रो मे मयिन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे मे च मे ब्रखस्पदे ब्रखस्पदे मे चचा मे मे बृहस्पतिर्बृहस्पतिर् मे मे बृहस्पतिश्च च बृहस्पतिर् मे मे बृहस्पतिश्च बृहस्पतिश्च च बृहस्पतिर्बृहस्पतिश्च मे मे च बृहस्पतिर्बृहस्पतिश्च मे च मे मे च चम इन्द्र इन्द्रो मे च चम इन्द्रः म इन्द्र इन्द्रो मे इन्द्रश्च चेन्द्रो इन्द्रश्च मे मे चेन्द्र मित्रो मित्रो मे च च मित्रो मित्रो मे मे मित्रश्च मित्रश्च च मित्रो मित्रश्च मे मित्रो मित्रश्च मे च मे मे इन्द्रो मे च च म इन्द्रो मे मयिन्द्रश्च चेन्द्रो मे मयिन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे इन्द्रश्च मे च मे मे वरुणो वरुणो मे वरुणः मे वरुणो वरुणो मे मे वरुणश्च च मे मे वरुणश्च वरुणश्च च वरुणश्च मे मे च वरुणो वरुणश्च मे मयिन्द्र इन्द्रो मे मयिन्द्रश्च चेन्द्रो मे मयिन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे च च मे त्वष्टा त्वष्टा मे च च त्वष्टा मे त्वष्टा त्वष्टा मे त्वष्टा च च त्वष्टा त्वष्टा च त्वष्टा च चत्वष्टा त्वष्टा च मे मे चत्वष्टा त्वष्टा च मे च मे मे च चम मे च इन्द्रः मयिन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च चेन्द्र मे मे चेन्द्र मे च मे मे च च मे दादा दादा मे च च मे दादा मे मे मे च च दादा च मे मे धादा दादा च मे च मे मे मयन्द्र इन्द्रो मे मयिन्द्रश्च चेन्द्रो मे महिन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे क्ष मे मे च च च मे विष्णुर्विष्णुर्मे च च च च च च च च विष्णुः मे विष्णुर्विष्णुर्मे मे विष्णुश्च च विष्णुर्मे विष्णुश्च विष्णुश्च च विष्णुर्विष्णुश्च मे मे च विष्णुर्विष्णुश्च मे च मे च च मे च च इन्द्रः म मे म इन्द्रश्च मे म इन्द्रश्च इन्द्रश्च इन्द्रश्च मे मे इन्द्रश्च मे चमे मे च चमेनावश्विनौ मे च चमेश्विनौ मे च चाश्विनौ मे मे च अश्वि च च च च चमे च मे मे च च म इन्द्र इन्द्रो मे च च म इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे मरुतो मरुदो मे च च मे मरुदो मरुदो मे मे मरुदश्च च मरुदो मे मे मरुतश्च मरुतश्च च इन्द्रश्च चन्द्र इन्द्रश्च मे मे चन्द्र इन्द्रश्च मे च मे मे च च मे विश्वे विश्वे मे च च मे विश्वे ए मे विश्वे विश्वे मे मे विश्वे च च विश्वे मे मे विश्वे च विश्वे च च विश्वे विश्वे च मे मे च विश्वे विश्वे च मे च मे मे च देवा देवा मे च मे देवा देवा मे देवा इन्द्र इन्द्रो देवा मे देवा इन्द्रः देवा इन्द्र इन्द्रो देवा देवा इन्द्रश्च चेन्द्रो देवादेवा इन्द्रश्च इन्द्रश्च चन्द्र इन्द्रश्च मे मे चन्द्र इन्द्रश्च मे च मे मे च मे पृथिवी पृथिवी मे च च मे पृथिवी मे च च च च च च मे मे च पृथिवी चम इन्द्र इन्द्रो चम इन्द्रः म इन्द्र इन्द्रश्च चेन्द्रो इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे च मे मे च च च मेन्दरिक्षमन्तरिक्षं मे च मेन्दरिक्षं मेन्दरिक्षमन्तरिक्षं मे मेऽन्दरिक्षं चान्दरिक्षं मे मेऽन्दरिक्षं च अन्तरिक्षं च चान्दरिक्षमन्तरिक्षं च मे मे च मे च मे मे च म इन्द्र इन्द्रो मे महिन्द्रश्च चेन्द्रो मे मयिन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे च च मे द्यौर्दौर्मे च च मे द्यौः मे द्यौर्दौर्मे मे द्यौश्च च द्यौर्मे मे द्यौश्च द्याौश्च च द्यौर्द्याौश्च मे मे च द्यौर्द्याौश्च मे च मे मे च च म इन्द्र इन्द्रो मे च चम इन्द्रः म इन्द्र इन्द्रो मे महिन्द्रश्च चेन्द्रो मे महिन्द्रश्च च मे मे च च मे दिशो दिशो मे च च मे दिशो दिशो मे मे दिशश्च च दिशो मे मे दिशश्च दिशश्च च दिशो दिशश्च च मे मे च च म इन्द्र इन्द्रो मे च च म मयिन्द्र इन्द्रो मे मयिन्द्रश्च मे मयिन्द्रश्च इन्द्रश्च चन्द्र मे मे चेन्द्र इन्द्रश्च मे च मे मे च च मे मूर्ध मूर्धा मे च मूर्धा मे मूर्धा मूर्धा मे मे मूर्धा मे मे च मूर्धा च चमूर्धा मूर्धा च मे मे चमूर्ध मूर्धा च मे च मे मे च च मयिन्द्र इन्द्रो मे च च म इन्द्रः मयिन्द्र इन्द्रो मे महिन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे च च मे प्रजापति प्रजापतिर्मे च च च च च च च च च च च मे मे प्रजापति प्रजापतिर्मे मे प्रजापदिश्च च प्रजापतिर्मे मे च मे मे च प्रजापदि प्रजापदिश्च मे प्रजापति हृदि प्रजा पदी चमे च इन्द्र इन्द्रो मे च चम इन्द्रः मयिन्द्र इन्द्रो मे इन्द्रश्च चेन्द्र इन्द्रश्च मे चेन्द्र इन्द्रश्च मे चमे च च